अठष्सर्ग प्रवृत्ते सकुले तस्ोरे वीरजन क्षे अंगद कंपन वीरमासादरणत्सुक आहूय सोंगद कोपत्ताड़े गदया कंपन पूर्व स चाल भृषा स चिक्षे शिखर गिरे अर्धितश्च प्रहारेण कम्पनः पतितो भुवि ततस्तु कम्पनम् दृष्ट्वा शोणिता क्षोहतम् रणे रथेनाभ्यपतत्क्षिप्रम् तत्रा गदमभीतवत् सोङ्गदम् निशितैर्बाणैस्तदाभिव्याधवेगितः शरीरदारणैस्तीक्ष्णैः कालाग्निसमविग्रहैः क्षुरक्षुरप्रहाराचैर्वत्सदन्तैः शिलीमुखैः कर्णिशल्यविपाठैश्च बहुभिर्निशितैः शरैः अङ्गदः प्रतिबिद्धाङ्गो बालिपुत्रः प्रतापवान् धनुरुग्रम् रथम् बाणान्ममर्दतरसा बली शोणिताक्षस्ततः क्षिप्रमसि वेगवान विचारयन् करेण तस्य तम् खड्गम् समाच्छिद्यननाद तस्याम् सफलके खड्गम् निजघान ततोऽङ्गदः यज्ञोपवीतवच्चैनम् चिच्छेदकपिकुञ्जरः तम् प्रगृह्यमः खड्गम् विनद्य च पुनः पुनः वालिपुत्रोऽभिदुद्रावरणशीर्षे परानरीन् प्रजङ्घसहितो वीरो रथेनाभिययौ क्रुद्धो बालिपुत्रम् महाबलम् आयसीम् तु गदां। गृह्य सवीरः कनकाम् गदः शोणिताक्षः समाश्वस्य तमेवानुपपातः प्रजङ्घस्तु महावीरो यूपाक्षसहितो क्रुद्धो बालिपुत्रम् महाबलम् तयोर्मध्ये कपि श्रेष्ठः शोणिताक्षप्रजङ्घयोः विशाखयोर्मध्यगतः पूर्णचन्द्र इवा बभौ अङ्गदम् परिरक्षन्तौ मैन्दो द्विविद तस्य तस्थतुरभ्यासे परस्परदिदृक्षया अभिपेतुम् महाकायाः प्रतियत्ता महाबलाः राक्षसा वानरान् त्रयाणाम् वानरेन्द्राणाम् त्रिभीराक्षसपुङ्गवैः संसक्तानाम् महद्युद्धमभवद्रो महर्षणम् ते तु वृक्षान् समादाय सम्प्रचिक्षिपुराहवे खड्गेण प्रतिचिक्षेपतान् प्रजङ्घो महाबलः रथानश्वान् द्रुमाञ्छैलान्प्रतिचिक्षिपुराहवे शरौघैः प्रतिचिच्छेदतान्यूपाक्षो महाबलः सृष्टान् द्विविदमयीम् दाभ्याम् द्रुमानुत्पाट्य वीर्यवान् बभम् जगदया मध्ये शोणिता अभिदुद्राववेगितः तमभ्याशगतम् दृष्ट्वा वानरेन्द्रो महाबलः आजघानाश्वकर्णेन द्रुमेणातिबलस्तदा बाहुम् चास्य स निस्त्रिंशमाजघान घातेन सपपातक्षितावसिः तम् दृष्ट्वा पतितम् भूमौ खड्गम् मुसलसन्निभम् मुष्टिम् संवर्तयामास वज्रकल्पम् महाबलः सललाटे महावीर्यमङ्गदम् वा नरर्षभम् महा चचालः सञ्ज्ञाम् प्राप्य तेजस्वी बालिपुत्रः प्रतापवान प्रजङ्घस्य शिरः कायात् पातयामासमुष्टिना स यूपाक्षोऽश्रुपूर्णाक्षः पितृव्ये निहतेरणे अवरुह्यरथात् क्षिप्रम् क्षीणेषु खड्गमाददे तमापतन्तम् सम्प्रेक्ष्य यूपाक्षम् विविदस्त्वरन् आजघानोरसि क्रुद्धो गृहीत भ्रातरं दृष्ट्वा महाबलः क्षो महाबल आजघाना तेज वक्षव तत सतस्ते न चाल च महाबल तौ शोणिताक्षयूपाक्षौ प्लवङ्गाभ्यान्तरस्विनौ चक्रतोस्समरेती समरे तीव्रमाकर्षोत्पाटनम् भृशम् दिवि दशोणिताक्षम् तु विददारनखैर्मुखे हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तथा जगामाभिमुखी सा तु कुम्भकर्णात्मजो वेगेन कुम्भस्ताम् सान्त्वयच्चमूम् अथोत्कृष्टम् महावीर्यैर्लब्धलक्षैः प्लवङ्गमैः महा दृष्ट्वा रक्षश्च तदा कुम्भः तेजस्वीरणे कर्मसु स धनुर्धन्विनाम् श्रेष्ठः प्रगृह्य सु समाहितः मुमोचाशीविष प्रख्याञ्छरान् देहविदारणान् तस्य तच्छुशुभे भूयः सशरम् धनुरुत्तमम् विद्युदैरावतार्चिष्मद्वितीयेन्द्रधनुर्यथा आकर्णकृष्टमुक्तेन जघानद्विविदम् तदा तेन हाटकपुङ्खेन सहसाभिहतस्तेन विप्रमुक्तपदस्फुरन् निपपादत्रिकूटा भो विह्वलन् प्रवगोत्तमः मैन्दस्तुभ्रातरम् तत्र दृष्ट्वा महाहवे अभिदुद्राववेगेन प्रगृह्य विपुलाम् शिला ताम् शिलाम् त्वप्रचिक्षेप राक्षसाय महाबलः बिभेद सन्धाय सुमुखं सुमुखम् शरमाशीविषोपमम् आजघान महातेजावक्षसि द्विविदाग्रजम् स तु तेन प्रहारेण मैन्दो बाणरयूथपः मर्मण्यभिहतस्तेन पपात भुवि दृष्ट्वा मथितौ तु रमापतन्तम् विव्याध कुम्भः पञ्चभिरायसैः त्रिभिश्चान्यैश्चितैर्बाणैर्मातङ्गमिवतोमरैः सोऽङ्गदम्बहुभिर्बाणैः कुम्भो विव्याध वीर्यवान् अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः अङ्गदः प्रति विद्धाङ्गो वालिपुत्रोऽनकम्पते शिला पादप वर्षा तर मूर्ध्वर्षा स प्रचिछेदिभेद च पुनः शिला कुंभकर्णात्मज श्रीमात्रीतापतंत सम्रेक्ष्य कुंभों वाणरयूथप भ्रुवो विव्याध बाव कंजर तर शुस्र वु पिहते चा लोचने अङ्गदः पाणिना नेत्रे पिधायरुधिरोक्षिते सालमासन्नमेकेन परिजग्राहपाणिना सम्पीड्योरसि सस्कन्धम् करेणाभिनिवेश्य च किञ्चिदभ्यवनम्यैनमुन्ममाथमहारणे तमिन्द्रकेतुप्रतिमम् वृक्षम् मन्दरसन्निभम् समुत्सृजत सर्वरक्षसा सचिछेदशित सत भेदन अंगदो विव्यथे भीक्षण सप पात मुमोह अंगद्वा सीद् तमिवगरे दुरासद हरश्रेष्ठा राघवाय नवेदय रामस्त व्यथित् श्रुवा वालीपुत्र महा हवे तेतुवानरशार्दूलाः श्रुत्वा रामस्य शासनम् अभिपेतुः सुसङ्क्रुद्धाः कुम्भमुद्यतकार्मुकम् ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः रिरक्षिषन्तोऽभ्यपतन् मङ्गदम् वानर ऋषभाः जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः कुम्भकर्णात्मजम्बीरम् क्रुद्धाः समभिदुद्रुवुः पततस्तानंद्रा महाबला आववारशरौघेण नगे नलाशय तस् बाथंप्य नशे कुर पर वीक्षि वानरेन्द्र महात्मा वेलाव महोदध दृष्ट् हरिगणा छर वृष्टिता अंगद पृष्ठ भ्रातृजं प्लबगेशर अभिदुद्रावसुग्रीवः कुम्भकर्णात्मजम् ऋणे शैलसानुचरम् नागम् वेगवाणिव केसरी उत्पाट्य च महावृक्षानश्वकर्णादिकान् बहून् अन्यांश्च विविधान् वृक्षांश्चिक्षेपसमः कपिः तान् छादयन्तीमाकाशम् अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैः आचितास्ते द्रुमारेजुर्यथा घोराः शतघ्नयः द्रुमवर्षम् तु तद्भिन्नम् दृष्ट्वा कुम्भेन वीर्यवान् वानराधिपतिः श्रीमान् महासत्त्वो न विव्यथे स विध्यमानः सहसा सह कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुः प्रभम् अवप्लुत्य ततः शीघ्रम् कृत्वा कर्मसु दुष्करम् अब्रवीत्कुपितः कुम्भम् भग्नशृङ्गमिव द्विपम् निकुम्भाग्रजवीर्यन्ते बाणवेगम् तदद्भुतम् सन्नतिश्च प्रभावश्च तव वा रावणस्य वा प्रह्लादबलिवृत्रघ्नकुबेरवरुणोपमा एकस्त्वमनुजातोऽसि पितरम् बलवत्तरम् वैकं महाबा शूलहस्तमदनाति वर्तंते जितेद्रिय विक्रमस्वहाबुद्धे कर्मा मम पश्यच वरदा पिततृव्यस्ते सहते देवदानवान। कुंभकर्णस्तु वीर्ेण सहते चुरासुरा धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च त्वमद्य रक्षसाम् लोके श्रेष्ठोऽसि बलवीर्यतः समरे मया सह तवाद्भुतम् अद्य भूतानि उपालम्भयाच्चैव नासि वीरमया हतः कृतकर्मपरिश्रान्तो विश्रान्तः पश्य मे बलम् तेन सुग्रीववाक्येन सावमानेन मानितः अग्नेराज्यः तस्यैव तेजस्तस्याभ्यवर्धत ततः कुम्भस्तु तदा गजा विवातीतमदौ निःश्वसन्तौ मुहुर्मुहुः अन्योन्यगात्र ग्रथितौ घर्षन्तावितरेतरम् स धूमाम् मुखतो ज्वालाम् विसृजन्तौ परिश्रमात् तयोः पादाभिघाताच्च चा निमग्ना चाभवन्मही व्याघोर्नितरङ्गश्च चुक्षुभे वरुणालयः ततः कुम्भम् समुत्क्षिप्य सुग्रीवोलवणाम्भसि पातयामास वेगेन दर्शयन्नुदधे स्तलम् ततः कुम्भनिपातेन जलराशिः समुत्थितः विन्ध्यमन्दरसङ्काशो विससर्पसमन्ततः ततः कुम्भः समुत्पत्त्य सुग्रीवमभिपात्य च आजघानोरसिक्रुद्धो वज्रकल्पेन मुष्टिना तस्य वर्म तस्य वेगेन तत्रासीत् तेजः प्रज्वलितम् महत् वज्रनिष्पेष सञ्जाता ज्वाला मेरोर्यथा गिरेः स तत्राभिहतस्तेन सुग्रीवो बाणरर्षभः मुष्टिम् संवर्तयामास वज्रकल्पम् महाबलः अर्चिः सहस्रविकच रविमण्डलवर्चसम् स मुष्टिम् पातयामास स तु तेन प्रहारेण विह्वलो भृशपीडितः निपपात तदा कुम्भो गतार्चिरिवपावकः मुष्टिनाभिहतस्तेन निपपाताशुराक्षसः लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया कुम्भस्य रूपं रूपम् भग्नस्योरसि मुष्टिना बभौ यथा रूपम् गवाम् तस्मिन् हते भीम पराक्रमेण प्लवङ्गमाना वृषभेण युद्धे महिषशैलासवना च चालभयम् च रक्षांस्यधिकम् विवेश इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षट्सप्ततितमः सर्गः